नारदपुराणं पूर्वार्धम् अध्यायम् त्रि नारद उवाच कथं ससर्जब्रह्मादीनादिदेवः दी पुरा विभुः क्याहि सनक सर्वज्ञोऽस्ति यदो भवान् सनक उवाच रायणोऽक्षरो नन्दः सर्वव्यापी निरञ्जनः तेनेदमखिलम् व्याप्तम् जगस्तावरजङ्गमम् आदिसर्गे महाविष्णुस्वप्रकाशो जगन्मयः गुणभेदमधिष्ठाय मूर्तित्रिकमवासृजद सृष्ट्यार्थम् तु दक्षिणाङ्गात् प्रजापतिम् मध्ये रुद्राख्यमेथानम् जगदम्धकरम् मुने पालनायास्य जगदो वामाङ्गाद्विष्णुमव्ययम् तमादिदेवमचरम् केजिदाहुशिवाभिधं केजिद्विष्णुं सदा सत्यम् ्रह्माणं केजिदुचिरे तस्य चक्रिपरा विष्णोर्जगद्गार्यप्रवर्तिनी भावा भावस्वरूपा सा विद्या विद्येऽधिगीयते यदा विश्वं महाविष्णोर्भिन्नत्वेन प्रतीयते तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम् ज्ञादृज्ञेयाद्युपाधिस्ते यदा नश्यदिनारद सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते येष मायामहाविष्णोर्भिन्ना संसारदायिनी अभेदबुद्ध्या दृष्टा ेत्सं सारक्षयकारिणी विष्णुशक्तिः समुद्भूतमेतत् सर्वम् चराचरम् यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गी उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते अविद्योपाधियोगेन तथेदमखिलं जगद यथा हरिर्जगद्यापि तस्य शक्तिस्तथा मुने दाहशक्तिर्यथाङ्गारे स्वाश्रयं व्याप्य उमेदि पुमेदि केजिदाहुस्तां शक्तिं लक्ष्मीं तथा परे भारतीत्यपरे चैनाम् गिरिजेत्यम्बिकेति च दुर्गेदि भद्रकालीदि चण्डी माहेश्वरीत्यपि कौमारी वैष्णवीचेदि चेति वाराह्येन्द्री च शाम्भवी ब्राह्मीति विद्याविद्येति मायेति तथा परे प्रकृतिश्च परा चेदि वदन्ति परमर्षसि शेषशाक्तिः परा विष्णोर्जगत्सर्गाधिकारिणी व्यक्ताव्यक्तस्वरूपेण जगख्याप्यव्यवस्थिता प्रकृतिश्च पुमांश्चैव कालश्चेदि विधिस्थितिः सृष्टिस्थिति विनाशानामेक कारणतां गतः येनेदमखिलं जातं ब्रह्मरूपधरेण वै तस्मात्परतरो देवो नित्य इत्यभिधीयते दे, रक्षां करोति यो देवो नित्य इत्यभिधीयते दे, रक्षां करोति यो देवो जगदाम् परदः पुमान् तस्मात् परतरम् यत्तदव्ययम् परमम् पदम् अक्षरो निर्गुणशुद्धपरिपूर्णः सनातनः यः परः योगिध्ये यः परात्परः परमात्मा परानन्दः सर्वोपाधिविवर्जितः ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः योत्सौ शुद्धोऽपि परमो ह्यहङ्कारेण संयुतः देहीदिप्रोच्यते मूढैरहो ज्ञानविडम्बनम् सदेव परमशुद्ध सत्वादि सत्त्वादिगुणभेदः मूर्तित्रयं समापन्न समापन्नसृष्टिस्थित्यन्तकारणं योऽसौ ब्रह्म जगत्कर्ता यन्नाभिकमलोद्भवः स एवानन्दरूपात्मा तस्मान्नास्त्यपरो मुने अन्तर्यामि जगद् ्यापी सर्वसाक्षी निरञ्जनः भिन्ना भिन्नस्वरूपेण स्थितो वै परमेश्वरः यस्य शक्तिर्महामाया जगद्विस्तम्भधारिणी विश्वोत्पत्तिर्निदानत्वात् प्रकृतिः प्रोच्यते बुधैः आदिसर्गे महाविष्णोर्लोकान् कर्तुं समुद्यदः प्रकृतिपुरुषश्चेदि कालश्चेदितृधा भवेद् पश्यन्ति भाविदात्मानो यं ब्रह्मत्यभिसंनिधं शुद्धं यत् परमं धाम तद्विष्णोः परमं पदम् एवम् शुद्धोऽक्षरो नन्दकालरूपी महेश्वरः गुणरूपी गुणाधारो जगदामादिकृद्विभुः प्रकृतिः क्षोभमापन्ना पुरुषाख्ये जगद्गुरौ महान् प्रादुरभूदुद्धिस्ततोऽहं समवर्तत अहङ्काराश्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च तन्मात्रेभ्यो हि जातानि भूतानि जगधकृते आकाशवायु अग्रिजलभूमयोज्य भवात्मज यथा क्रमम् कारणदा मे कैकस्योपयान्ति च ततो तामसा न सृजत्प्रभुः तिर्यज्ञो निगदान् जन्तून् पशुपक्षिमृगाधिकान् समप्यसाधकं देवसर्गं सनातनात् ततो वै मानुषं सर्गं कल्पयामास पद्मजः ततो दक्षाधिकान् पुत्रान् सृष्टिसाधनतत्परान् येभिः पुत्रैरिदं व्याप्तं स देवासुरमानुषम् भूर्भुवश्च तथा स्वश्च जनस्तथा तपस्च सत्यमित्येवं लोकाः सत्योपरिस्थिताः अतलं वितलं चैव सुतलं च तलातलं महातलं च विप्रेन्द्र तदोद्ध रसातलं पादालं चेदि सप्तैव पादालानि क्रमादधः एष सर्वेषु लोकेषु लोकनाधांश्च सृष्टवान् कुलाचलन्नदीश्चासौ सप्तल्लोकनिवासिनां वर्तनादीनि सर्वाणि यथा योग्यमकल्पयद भूतले मध्यगोमेरु सर्वदेवसमाश्रयः लोकालोकश्च भूम्यन्दे तन्मध्ये सत्पसागराः द्वीपाश्च सप्तविप्रेन्द्रद्वीपे कुचला बाह्य नद विख्या जान्चा सी जबूप्रक्षा धानौ चाल क्रौ शाक ते देंूमय ये दीपा दे सुद्रैस्त सत्सत् पभिरावृताः लवणेक्षु सुरासर्प्यर्दधिक्षीरजलै समं ये ते द्विपा समुद्राश्च पूर्वस्मादुस्तरेतरः ज्ञेया द्विगुणविस्तरा लोकालोकाञ्च पर्वताद क्षारोदधेरुपोक्तरम् यद्धि माद्रेश्चैव दक्षिणां ज्ञेयं तद्भारदं वर्षं सर्वकर्मफलप्रदम् अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद तद्फलं भुज्यते चैव भोगभूमिष्वनुक्रमाद भारते कर्मशुभं वा तद्भं क्षयि विप्रेन्द्र भुज्यदेन्यत्र जन्तुभिः अद्यापि देवायिच्छन्ति जन्मभारदभूतले संचिदं सुमहत्पुण्यमक्षय्यमममलं शुभम् कदाल्लभामहे जन्म वर्षभारतभूमिषु कदा पुण्ये नमहदा यास्याम परमं पदम् दानैर्वा विविधाैर्यज्ञैस्तपोभिर्वाधवा हरिं जगदीशं समेष्यामो नित्यानन्दमनामयम् यो भारतभुवम् प्राप्य विष्णुपूजा परो भवेद न तस्य सदृशोऽन्योऽस्ति त्रिषु लोकेषु नारद हरिकीर्तनशीलो वा तद्भक्तानां प्रियोऽपि वा चूक्षशुर्वापि महदर्शवेद्यो दिविजैरपि हरिपूजारदो नित्यं भक्तः तोच्छिष्ठान्न सेवी च यादिविष्णोः परं पदम् नारायणेधि कृष्णेधि वासुदेवेदि यो वदेद सोपि छन्दसोऽपि वन्द्यसुरोत्तमैः शिवेदि नीलकण्डेदि शंकरेदि जयस्मरेद सर्वभूतहितो नित्यं सोऽभ्यर्च्यो दिवि जयि स्मृतः गुरुभक्तशिवध्यानि स्वाश्रमाचारतत्परः अनसूयुषुचिरदक्षो यः सोऽप्यर्च्य सुरेश्वरैः ब्राह्मण्यानां हितकरश्रद्धावान्वर्णधर्मयोः वेदवादरतो नित्यं सज्ञे ह्यः पङ्किपावनः अभेदर्शि देवेशे नारायणशिवात्मके सर्वं यो ब्रह्मण नित्यमस्मदादिशुकाकथा गो सुान्तो ब्रह्मचारी परनिन्दाविवर्जितः अपरिग्रहशीलश्च देवपूज्यः सनारद स्तेयादिदोषविमुखकृतज्ञसत्यवाक्षुचिः परोपकारनिरदपूजनीयसुरासुरैः वेदार्थश्रवणे बुद्धिपुराणश्रवणे तथा सत्सङ्गेऽपि च यस्यास्ति सोऽपि वन्द्यसुरोत्तमैः एवमादीन्यनेकानि कर्माणि श्रद्धयान्विदः करोति भारते वर्षे सम्बन्धोऽस्माभिरेव च ये देष्वन्यतमो विप्रमात्मानं नारभेत्तु यः स एव दुष्कृतिर्मूढो नास्त्यन्योऽस्मादचेतनः सम्प्राप्य भारते सुपराङ्मुखः पीयूषकलशं सुकृवा विषभाण्डमुपाश्रुतः श्रुति स्मृत्युदितैर्धर्मैर्नात्मानं पावयेतु यः स एवात्मविधाधी स्यात् पापि नामग्रणेर्मुने कर्मभूमिं समासाद्य यो न धर्मं समाचरेत स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गधी एवं भारतभूभागं प्रशंसन्ति दिवौकसः ब्रह्माद्या अभिविप्रेन्द्र स्वभोगक्षयभीरवः तस्मात् पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमं देवानां दुर्लभं वापि सर्वकर्मफलप्रदम् तस्मिन् पुण्ये च भूभागे यस्तु सत्कर्मसूद्यदः न तस्य सदृशं कश्चित् त्रिषु विद्यते अस्मिन् जातो कर्मक्षपणोद्यदः नररूप परिच्छिन्नस्स हरिर्नात्रसंशयः परं लोकफलं प्रेप्सु कुर्यात् कर्माण्यदन्त्रितः निवेद्य हरयेभ्र्यात्तद्फलं ह्यक्षयं स्मृतं विरागी सुकृतं कर्म प्रियदामितिं मे हरिः आ ब्रह्यभुवनाल्लोका पुनरुत्पत्तिदायकाः भला वृध्नुकर्मणां तत्प्राप्नोदि परमं पदम् वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये यदाश्रमं त्यक्तो कामः प्रान्पोदि पदमव्ययम् निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि स्वाश्रमाचारशून्यश्च पदितः प्रोच्यते बुधैः सदाचारपरो विप्रो वर्धते ब्रह्मतेजसा तस्य विष्णुश्च तुष्टः स्यात् भक्ति नारद भारते जन्म सम्प्राप्य नात्मानं तारयेतु यः पच्यदे निरये धोरे स त्वाच्चन्द्रार्कतारकम् परो धर्मो वासुदेवपरं तपः वासुदेवपरं ज्ञानं वासुदेवपरागदिः वासुदेवात्मकं सर्वं जगस्तावरजङ्गमम् आ ब्रह्मस्तम्भपर्यन्तं तस्मादन्यन्न विद्यते स एव धादात्रिपुरान्तकश्च स एवदेवसुरयज्ञरूपः एव ब्रह्माण्डमिदं तदोऽन्यन्न किञ्चिदस्ति यस्मात् परं ना परमस्ति किञ्चिद्यस्मादणीयान्न तद्धामहीयान् व्याप्तं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमोत्समिङ्ग्यम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे सृष्टिभरतखण्ड प्रहशस्त्य भूगोलानाम् वर्णनम् नाम तृतीयोऽध्यायः ओम्